ॐ नमो भगवते वासुदेवाय अथ दृढधनवोपाख्याने पुरुषोत्तमपूजनविधिर्नाम एकविंशोऽध्यायः वाल्मीकि उवाच अनलोत्तारणं कृत्वा प्रतिमायास्ततः परं प्राणप्रतिष्ठां कुर्वीत् ह्यन्यथा धातुरेव प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिनां प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वैहरे अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च यथा पूर्वं तथा भागः स्वर्णादीनां न देवताम् अन्येषामपि देवानां प्रतिमास्वपि पार्थिवम् णप्रतिष्ठा कर्तव्य तासु देवत्वसिद्धै पुरुषोत्तमबीजेन तद्विष्णोरित्यनेन च तथैव हृदयेऽङ्गुष्ठं दत्वा शश्व मन्त्रवेत् एभिर्मन्त्रैः प्रतिष्ठां तु हृदयेऽपि समाचरेत् अस्यै प्राणाक्षरन्तु च अस्यै देवत्वमर्चायै स्वाहेति यजुरीरयन् मूलमन्त्रैरङ्गमन्त्रैर्वैदिकैरित्यनेन च प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् अथवा नाम मन्त्रैश्च चतुर्थ्यन्तैः प्रयत्नतः स्वाहान्तैश्च प्रकुर्वीत तत्तद्देवाननुस्मरन् एवं प्राणान् प्रतिष्ठाप्य ध्यायेच्छ्रीपुरुषोत्तमम् श्रीवत्स वक्षसं शान्तं नीलोत्पलदलच्छविं त्रिभङ्गलितं ध्यायेत् सराधं पुरुषोत्तमम् देशकालौ समुल्लिख्य नियतो वाग्यतः श्रुचिः षोडशैरुपचारैश्च पूजयेत् पुरुषोत्तमम् आगच्छ देवदेवेश श्रीकृष्णपुरुषोत्तमम् राधया श्रीराधिकात्नसमायुक्तं कार्तस्वरविभूषितम् आसनं देवदेवेश गृहाण पुरुषोत्तमम् इत्यनेन मन्त्रेण आसनं समर्पयेत् श्रीराधिकासहितपुरुषोत्तमायमः आसनं समर्पयामि गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनया हृतं तोयमेतत् सुखस्पर्श्यताम् श्रीराधिकासहितपुराजनमः नन्दगोपगृहे जातु गोपिकानन्दहेतवे गृहाणार्घ्यं मया दत्तं राधया सहितो हरि श्रीराधिकासहितपुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय अर्घ्यं समर्पयामि अथा च मनं गङ्गाजलं समानीतं सुवर्णकलशस्थितम् आचम्यतां हृषिकेशपुराणपुरुषोत्तमम् श्रीराधिकासहितपुराण पुरुषोत्तमाय नमः समर्पयामि अथ स्नानं कार्यं मे सिद्धिमाया तु पूजिते त्वयि धातरि पञ्चामृतैर्मयानीतैराधिकासहितो हरिं श्रीराधिकासहितपुराणपुरुषोत्तमाय नमः श्रीराधिकासहितपुराणपुरुषोत्तमाय पञ्चामृतस्नानं समर्पयामि अयोदधिकृतं गव्यं माक्षिकं शर्करा तथां गृहाणिमानि द्रव्याणि राधिकानन्ददायक श्रीराधिकासहितपुराण पुरुषोत्तमाय नमः श्रीराधिकासहितपुराण पुरुषोत्तमाय पञ्चामृतस्नानं समर्पयामि योगेश्वराय देवाय गोवर्धनधराय च यज्ञानां पतयेनाथ गोविन्दाय नमो नमः गङ्गाजलसमं शीतं नदीतीर्थसमुद्भवं स्नानं दत्तं मया कृष्ण गृह्यतां नन्दनन्दनं नंद श्रीराधिकासहितपुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय पुनः स्नानं समर्पयामि अथ वस्त्रं पीताम्बरयुगं देवो सर्वकामार्थसिद्धये मम निवेदितं मया निवेदितं भक्त्या गृहाणसुरसत्तमम् श्रीराधिकासहिताय पुराणपुरुषोत्तमायनमः भगवते पुराणपुरुषोत्तमाय वस्त्रं निवेदयामि अथा चमनं निवेदयामि अथ उपवीतं दामोदर नमस्ते स्तोत्राहि मां भवसागरात् ब्रह्मसूत्रं सोत्तरीयं गृहाणपुरुषोत्तमं श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाजनमः भगवते पुराणपुरुषोत्तमाय उपवीतं समर्पयामि अथ चमनं समर्पयामि श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरं विलेपनं प्रतिगृह्यतां नमः अक्षतास्तु सुरश्रेष्ट कुङ्कुमाक्ता सुशोभिता मया निवेदिता भक्त्या ग्रहाणपुरुषोत्तमं भगवते पुराणपुरुषोत्तमाय श्रीराधिकासहिताय अक्षतान् समर्पयामि अथ पुष्पाणि समर्पयेत् मालत्यादीनि सुगन्धीनि माल्यादीनि सुगन्धीनि मालत्यादीनि मालत्या वै प्रभो मया हृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय पुष्पाणि समर्पयामि ततः अङ्गपूजां विदध्यात् नन्दात्मजो यशोदायास्तनयः केशिसूदनः भूभारोत्तारकश्चैव जनन्तो विष्णुरूपदृक् प्रद्युम्नश्चानिरुद्धश्च श्रीकण्ठः सकलास्त्रधृक् वाचस्पतिः केशवश्च सर्वात्मेति च नामतः पादौ गुल्फौ तथा जानु जगने चकटी तथा कटी तथा कंठं बाहुं मुखं तथा। नेत्रे शिरश्च सर्वाङ्गं विश्वरूपिणमर्चयेत् पुष्पाण्यादाय क्रमशश्चतुर्थ्यन्तैर्जगत्पतिं प्रत्यङ्गपूजां कृत्वा तु पुनश्च केशवादिभिः चतुर्विंशतिमन्त्रैश्च इस्चा, चतुर्थ्यन्तैश्च नामभिः पुष्पमादाय प्रत्येकं पूजयेत् पुरुषोत्तमं ततः धूपं निवेदयेत् वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध गंध उत्तमः आघ्रेयः सर्वभूतानाम् आघ्रेयः सर्वदेवानां धूपूजं प्रतिगृह्यताम् श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय धूपं निवेदयामि ततो दीपं दर्शयेत् त्वं ज्योतिस्सर्वदेवानां तेजसां तेज उत्तमम् आत्मज्योतिपरं धामो दीपोजं प्रतिगृह्यतां श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय दीपं निवेदयामि ततः नैवेद्यं निवेदयेत् नैवेद्यं गृह्यतां देवभक्तिं मेहजलां कुरु ईप्सितं मे वरं देहि परत्र च श्रीराधिका श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय नैवेद्यं निवेदयामि ततः मध्ये पानीयं निवेदयेत् उत्तरापोषणं च निवेदयेत् गङ्गाजलं समानीतं सुवर्णकलशे स्थितम् आचम्यतां हृषे केषु त्रैलोक्यव्याधिनाशन् श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः श्रीपुराणपुरुषोत्तमाय आचमनं समर्पयामि ततः श्रीफलं निवेदयेत् इदं फलं मया देवस्थापितं पुरस्तव तेन मे सफला वाप्तिर् तेन मे सुफला वाप्तिर्भवे जन्मनि जन्मनि श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते श्रीपुराणपुरुषोत्तमाय श्रीफलं निवेदयामि ततः करोदवर्तनं कुर्यात् गन्धकर्पूरसंयुक्तं कस्तूर्यादि सुवासितं करोदवर्तनकं देवग्रहाणपरमेश्वरं श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते पुराणपुरुषोत्तमाय करोदवर्तनं निवेदयामि ततः ताम्बूलं निवेदयेत् पूगीफलसमायुक्तं सकर्पूरं मनोहरं भक्त्या मया देव ताम्बूलं प्रतिगृह्यतां श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते श्रीपुराणपुरुषोत्तमाय ताम्बूलं निवेदयामि अथ दक्षिणां समर्पयेत् हिरण्यगर्भगर्भस्तं भ्येमबीजं विभावसोह अनन्त्यफुल् अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते श्रीपुराणपुरुषोत्तमाय दक्षिणां निवेदयामि ततः नीराजनं विदध्यात् शारदेन्दीवरश्यामं त्रिभङ्गलिताकृतिं नीराजयामि देवेशं राधया सहितं हरिं श्रीराधिकासहिताय भगवते पुराणपुरुषोत्तमाय नमः भगवते श्रीपुराणपुरुषोत्तमाय नीराजनं निवेदयामि ततः प्रदक्षिणां विदध्यात् रक्ष रक्ष जगन्नाथ रक्ष भक्तानुग्रहकर्ता त्वं गृहाणे मां प्रदक्षिणां ततः परं मन्त्रपुष्पं निवेदयेत् यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय यज्ञानां पतये नाथ मन्त्रहीनेति मन्त्रेण क्षमाप्य पुरुषोत्तमं स्वाहान्तैर्नाम मन्त्रैश्च तिलहोमो दिने दिने दीपः कार्यस्तु खण्डश्च यावनमासं च सर्पिषा पुरुषोत्तमस्य प्रीत्यर्थं सर्वार्थफलसिद्धये यस्य स्मृत्येति मन्त्रेण नमस्कृत्य जनार्दनं यदूनं तत्तु सम्पूर्णं विधाय विचरेत् सुखम् इत्थं श्रीपुरुषोत्तमं नवघनश्यामं सराधं मुदा सम्प्राप्ते पुरुषोत्तमे वनितले लब्ध्वा जनुर्मानवम् भक्त्या यः प्रतिदिनं कृत्वा गुरुं वैष्णवं भुक्त्वा ह्यत्र सुखं समस्तमतुलं पदं पावनम् इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तमवासमाहात्मे श्रीनारायण नारदसंवादे दृढधनवोपाख्याने पुरुषोत्तमपूजनविधिर्नाम एकविंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु